गणेशपुराणम् उपासनाखण्डम् अध्यायं फोर्टि एय्ट् व्यास उवाच श्रुतं मया महाख्यानं त्रिपुरस्य वधाश्रयं तथापि श्रोतुमिच्छामि क्व स्थिता जगदम्पिका कथमाविर्बभूवैशात्तिथौ धग्धक्व दैत्यराट एतत्सर्वं सविस्तारं कथयस्व पितामह ब्रह्मोवाच बाहुले पौर्णमास्यां स सायं दग्धो महासुरः दिवायुद्धं युद्धं महा प्रागेव वर्णितं हि यदोर्चिदसुरैः सर्वैर्जयशाली सुरारिः अधस्तस्यां दीपदानं कुर्वन्ति भुवि मानवाः तस्यां स्नानं च दानं च जप होमादिकं च यद् बहुलं जायते यस्मात् तस्मात् सा स्मृता न कुर्वन्दितृपुदारिमहोत्सवं न लभन्ते जयं क्वापि दग्धपुण्या भवन्ति ते अतस्तस्यां पौर्णमास्यां प्रादरर्चन्ति शिवं निशि यत्तै कृतं पापं विलयं प्रतिपद्यते आजन्मदकृतं पापं मध्याह्नार्चनतस्तद्धा सप्तजन्मार्जितं पापं प्रदोषार्चनतो मुने आविर्भावं शिवायास्त्वं कथ्यमानं मया शृणु तस्य मृत्युं शिवा ज्ञात्वा भयादन्तर्हि आविरासिगन्मादा हिमाचलगुहामुखादर्शपर्वतंघोरं सिंहव्याक्रमृगाकुलम् अपश्यन्ती शिवं साधुविरहाकुलमानसा विललापभृशम्भिदाखातादहा शिवेति च कथं मां न विजानीषे सर्वज्ञः संसदाशिवन एकाकिनीं घोरे क्रन्दन्तीं हुररीमिव कदा मे दर्शनं ते स्यात् किं मां विस्मृतवानसि शक्रानजीविदं धर्तुं सोढुं वा विरहंहर तावत्त्वमपि कुत्रासि न मे शोकं शृणोषि त्वां विना शरणं कं वा यामि किं वा करोम्यहं योजयस्व पुनर्मां त्वं शिवेन च शिवेन च इदानीं पुनरुत्पन्नां जानीह जठरा तव वरं तमेह शीघ्रं मे गवेषय सदाशिवम् नो चेद्देकपरित्यागं भृगोरस्मात् करोम्यहं क उवाच एवं रुदन्त्यास्तस्यास्तु गिरिमुत्तमां न्यवेद यद्भिमवदे कश्चिदागत्य धीवरः धीवर उवाच काचिन्निदम्बिनी बालास्सर्वाभरणभूषिदा ताडङ्गे बिभ्रदीश्रुत्योर्मण्डले इव भास्यतः नानारत्नलसद्दीप्तिमुकुडं मस्तके भृष्यं ललाडे च दुष्कोणं मुक्ता शो पुष्पं काञ्चनरत्नाढ्यं मुक्ता दामविलम्भिधम् सीमन्तान्तर्गतं चारु नासिके स्वर्णमौक्तिकम् अङ्गदे चारुणी बाह्वोर्हस्तयोर्वलयानि च लस्सत्काञ्चनरत्नाढ्यं प्रत्येकमङ्गुलीयकं मुक्ताफलमयिमालां लस्सत्कञ्चुकसंश्रितां हेमरत्नमयीं कडी क्ष्वौमा वृते शुभां गुल्फयो शृङ्खलेहैमे सिञ्चच्चारुसुनूपुरे पादाङ्गुलीष्वपि पृथत्तद्भूषणमुत्तमम् एवं सर्वानवद्याङ्गीं रुदतीं विह्वलाभृशं दृष्ट्वा पृष्ठान मां वक्त्रिगृह्णादि तवा वाचा इद्धं निशम्य हेदु कितस्था सुधामवयनुर्भावदत्सुमुवाच किम शोचसे शुभ्रुसृष्टिस्थे दुखे सर्वलक्षणसम्पूर्णे सर्वशक्तियुधे नखे अकर्तुमन्यथाकर्तुं कर्तुमीशे महेश्वरि अवाप्तसर्वकामे च सर्वप्राण्यन्तरं गदे नवियुक्ताशिवेन त्वं सर्वान्तर्यामिनीशुभे अथापि यो जयिष्ये त्वां शिवेन शिवकारिणा उत्तिष्ठेति गृहीत्वा ता माययौ निजमन्दिरं ननन्दपार्वती तत्र दृष्ट्वा मेनां सुधान्वितां निःश्वासपरमाप्यासि शिवं द्रष्टुं समुत्सुका उवाचपि दरं नत्वा साधू वायं वदस्व मे दानं तपोवापि दुष्करं शिवलब्धये करिष्येतमकब्दादपूर्ववत्तप उत्तमं ब्रह्मो वाचा अवदज्जनकस्तां दु विचार्य मनसा सकृदकार्यसिद्धिकरं शीघ्रमुपायं शृणुतं मुने किमवानुवाज शृणुपार्वतिवक्ष्यामि साधूपायं शिवाप्तये उपास्तिं विघ्नराजस्य धर्मार्थकाममोक्षदाम् अनुष्ठितां महेन्द्राद्यैर्देवैश्च नारदादिभिः प्राप्ताश्च सिद्धयस्तास्ताक्रादि पदलक्षणाः ब्रह्मणसृष्टिसामर्थ्यं दत्तं तेन महात्मना विष्णोश्चावनसामर्थ्यं दत्तं सर्वेश्वरेणः शिवस्यापि च तेनैव सामर्थ्यं संहृतौ दृढं शेषस्यापि च तेनैव सर्वविघ्नहरेण च धराधरणसामर्थ्यं दत्तं सर्वेश्वरेणः यस्य स्वरूपं न विदुर्ब्रमाद्यामुनयोऽपि च वाचामगोचरोऽसौ मनसोऽधाप्यगोचरः गजाननस्वरूपेण परिदृश्योऽयमीश्वरः अधस्तेनैव रूपेण सर्वारम्भेषु पूज्य दे तमुपासस्व सर्वेषां मया प्रोक्तेन वर्त्मना इति श्रीगणेशपुराणे उपासनाखण्डे अम्बाविर्भावो नामाष्टचत्वारिंशत्तमोऽध्यायः ओ